गरुडपुराणम् आचारकाण्डम् अध्यायम् सिक्स् हरिरुवाच उत्तानपादादभवत् सुरुच्यामुत्तमः सुतः सुनीत्याम् तु ध्रुवपुत्रः सलेभे स्थानमुत्तमम् तस्य प्राचीनबर्हिस्तु पुत्रस्तस्याप्युदारधीः दिवञ्जयस्तस्य सुतस्तस्य पुत्रो रिपुस्मृतः रुरुस्तस्य सुद चात्मजः अङ्गस्य वेणपुत्रस्तु नास्तिको धर्मवर्जितः अधर्मकारी वेणश्च मुनिभिश्च कुश्यैर्षदः ऊरुं ममधुपुत्रार्थे तदोस्य तनयो भवद ह्रस्वोदिमात्रकृष्णाङ्गो निषीदेदि तदो ब्रुवन् निषादस्तेन वैजादो विन्ध्यशैलनिवासकः तद्दोऽस्य दक्षिणम् पाणिं ममधुः सहसा द्विजाः तस्मात् तस्य सुतो जादो विष्णुर्मानसरूपदृक् पृथुरुत्येव दिवं ययौ दुदोहपृथिवीम्राजा प्रजानां जीवनाय हि अन्धर्धान प्रधो पुत्रो स्तः विरुधानस्तदात्मजे प्राचीन पृथिव्या मेकराड् बभौ उपये मे समुद्रस्य लवणस्य स वै सुताम् तस्मात् सुषावसामुद्री दशप्राचीनबर्हिषः सर्वे प्राचेतस नाम धनुर्वेदस्य पारगाभा अपृथगधर्मचरणास्तेतप्यन्तमहत्तपः दशवर्षसहस्राणि समुद्रसलिलेशयाः प्रजापदित्वम् सम्प्राप्य भार्या तेषाम् च मारिष अभवद्धवशादेन तस्याम् दक्षो भवत्तदः असृजन्मनसा दक्षप्रजा पूर्वम् च दुर्विधाः नावर्धन्त च तास्तस्य अपध्यादाहरेण तु मैथुनेन तस्य पुत्रसहस्रम् दृ वैरुण्याम् समपद्यद नारदोक्ता भुवश्चान्दम् गदा ज्ञातुम् च नागदाः दक्षपुत्रसहस्रम् तु दक्षपुत्रसहस्रंश्च तेषु नष्टेषु सृष्टवान् शबलाश्वस शबलाश्वास्तेऽपि गदा भ्रातॄणाम् पदवींहर दक्षक्रुद्धः शशापाद नरदम् जन्म चाप्स्यसि नारदो ह्य भवपुत्रकश्यपस्य मुनेः वैरेण ते विनश्यन्ति तस्माद्वैरं न कर्तव्यं कदाचिदपि केन जड असियां जनयामास दक्षो दुहितरोह्यथ षष्टिं कन्या रूपयुता द्वे चैवाङ्गिरस्ये ददौ द्वे प्रादात्सपृशाश्वाय दश धर्माय चाप्यथ चतुर्दशकश्यपाय अष्टाविंश्यादिमेव मिन्दवे प्रददौ बहुपुत्राय सुप्रभाम्भामिनीम् तथा मनोरमाम्भानुमदीम् विशालाम् बहुदा मदक्षप्रादान् महादेव च दस्रोरिष्टने सकृशाश्वाय च प्रादात् सुप्रजां च तथा जयाम् अरुन्धदी वत्सुर्यामि लम्बा भानुर्मरुद्वदी सङ्कल्पा च मुहूर्ता च साध्या विश्वा च तादश धर्मपत्न्यसमाख्यादा कश्यपश्य कदृसाध्याहराक्रोधा विनदा सुरभिखगा विश्वे देवास्तु विश्वाया साध्या साध्यान्वया च मरुत्वत्याम् मरुत्वन्दो वसोऽस्तु वसवस्तथा भानोस्तु भानवो रुद्रमुहूर्ताच्च मुहूर्तजाः दम्बायाश्चैव को शोधनागवीधिस्तु यामितः पृथिवी विषयम् सर्वमरुत्वद्यां व्यजायदा सङ्कल्पायास्तु सर्वात्मा जज्ञे सङ्कल्प एव सोमश्च धरश्चैववानिलो नलः प्रत्यूष प्रभासव आपस्य पुत्रो वेदुढ़ोध्वनिस्त ध्रुव से पुत्रो भगवान कालो प्रकान सोमस्य से वर्चा वर्चस्वी। जाये धवस पुत्रो द्रुहिणो हवगस्त मनोहरायां शिशिप्राणोधरमणस्त अनिल से शिव भाज तर पुत्रपुमज अविज्ञादतिव दव पुत्रु अग्निपुत्रकुमस्तु शरस्तं व्यजात तस्य शाखो विशाखश्च नैकमेयश्च पृष्ठतः अपत्यङ्कृत्तिकानां तु कार्तिकेय इति स्मृतः प्रत्यूषस्य विधुपुत्रमृषिं नाम्नातु देवलं विश्वकर्मा प्रभासस्य विख्यादो विख्यातो देववर्धिकिः अजैकपादहिर्बुध्न्यस्त्वष्टारुद्रश्च वीर्यवान् त्वष्ठुश्चाप्यात्मज पुत्रो विश्वरूपो महातपः हरश्च बहुरूपश्च त्र्यम्पकश्चापराजितः वृषकापिश्च शम्भुश्च कपर्दी रैवतस्तथा मृगव्याधश्च सर्वश्च कपाली महामुने एकादश इदेकधिदारुद्रास्त्रि भुवनेश्वराः आदित्यां कश्यपाश्चैव सूर्या द्वादशजज्ञिरे विष्णुशक्रो यमादा त्वष्टाभूषाधदैव च विभस्वान् मित्रो वरुण एव च आंश्युमांश्च भगवश्चैव सोमः सप्त विंशतिसोमस्य पत्न्यो नक्षत्रसञ्ज्ञिताः हिरण्यकशिपुर्दित्यां हिरण्याक्षो भवत्तदा सिंहिका च भवत्कन्या विप्रचित्ति परिग्रहाः हिरण्यकशिपो पुत्राश्चत्वार पृथुलौजसः अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्यवान् संह्रादश्चावमस्तेषाम् प्रह्रादो विष्णुतत्परः संह्रादपुत्र आयुष्मान् शिविर्बाष्कल एव च विरोचनश्च प्राह्दिर्बलिर्जज्ञे विरोचनाद बलेः पुत्रश वृषध्वज हिरण्याक्ष सुदाश्चास्सन् सर्व एव महाबलास उत्कुरुशुनिश्चैव भूतसन्तापनस्तथा महानाभो महाबाहु कालनाभस्तथापरः अभ वन्दनुपुत्राश्च द्विमूर्धा अयोमुखः शङ्कुशिराकपिलः शम्भरस्तथा एकचक्रो महाबाहुस्तारकश्च महाबलः स्वर्भानो वृषपर्वा च पुलोमा च ये ते दनो सुदाख्यादा विप्रचित्तिश्च स्वर्भानो सुप्रभाकन्या शर्मिष्ठा उपदान हिरा प्रख्यादरकण्य वैश्वान सुधो वैश्वानरसुदो, वैश्वानरसुदे चोभे पुलो मह काल का तथा उभे ते पुत्र मरीचेस्तु परग्रह तंपत्रसहसाणी पुलो काल कञ्जाश्च मारी च तनया स्मृताः सृङ्गिकायाम् समुत्पन्ना विप्रचित्तिसुधास्तधा व्यंशल्यश्च बलवान्नभश्चैव वा महाबलः बलवा वाताभिर्नमुचिश्चैव वा इल्वलसृमांस्तधा अजन्तको नरकश्चैव कालनाभस्तथैव च निवादकवच दैत्या प्रस्थादस्य कुलो भवन् षट्सुताश्च महासत्त्वास्ताम्रायाः परिकीर्तिताः सुगीष्यणी च सुग्रीवी शुचिगृध्रीपा शुकी शुकानजनयदुलूकी प्रत्यलूककान् श्येनी श्येनां तथा भासी भासान् गृध्रांश्च गृध्र्यपि रुच्याौद शुच्यौदकान् पक्षिगणान् सुग्रीवीदुव्यजायत अश्वानुष्ठान् गर्भगर्दभांश्च ताम्रां वंशप्रकीर्तिदः विनया विनतायास्तु पुत्रौ द्वौ विख्यादौ गरुडारुणौ सुरसायाः सहस्रं तु सर्पाणाममितौ आद्र आर्द्र वेयाश्च फणिनः सहस्रममितौ जसः शेषां प्रधानभोदेश शेषवासुकितक्षपाफ शङ्खश्वेतो महापद्मशङ्ख कम्बलाश्वतरौ तथा जेलापत्रस्तथा नाघकर्कोटकधनञ्जयौ गणं क्रोधवशं विद्धिते च सर्वे च दंश्रिणः क्रोधादुजनयामास पिशाचांश्च स्तु वै जनयामासुरभिर्महिषांस्तथा जिरा वृक्षलदा बल्यी तृणजादीश्च सर्वसफ यक्षरक्षाम्सि च यक्षरक्षांसि मुनिरप्सरसस्तथा हरिष्टादुमः सत्त्वान् गन्धर्वान् समजीजनत देवा एकोन पञ्चाशन्मरुदो एकज्योतिश्च द्विर्ज्योतिश्चर्ज्योतिस्तथैव च एकशुक्रो द्विशुक्रश्च त्रिशुक्रश्च महाबलः यीदृक्सदृक् तथा मित्रश्च समितश्चैव सुमतिश्च महाबलः ऋतजि सत्यजिच्चैव सुषेणसेन जित्तथा अधिमित्रोऽप्यमित्रश्च दूरमित्रो जितस्तथा ऋतश्च ऋतधर्म च विहर्ता वरुणो ध्रुवः विधारणश्च दुर्मेधा अयमेकगणस्मृगः ईदृशश्च सदृक्षश्च एदादृक्षो मिदाशनः येदेः प्रसृ एदेः प्रसदृक्षश्च सुरतश्च महातभाः हे दुमान् प्रसवस्तद्वत् सुरभश्च महायशाः नादि विक्षिपस्सहः विमुक्त विक्षिप सहुतिर्वसुरलाधृष्यो लाभकामो जयी विराड उद्वेशो नाम वायुस्केदु सप्तमे यम हरे रूपं राजानो दानवासुराः सूर्यादि सूर्यादिपरिवारेण मन्वाद्या ईजिरे हरिम् इति श्रीगारूडे महापुराणे आचारकाण्डे उत्थानपादवंशादिवर्णनं नाम षष्ठोऽध्यायः ओम्